श्रीहरे नमः अत एकविंशोऽध्यायः श्रीशुक उवाच इत, इत् इत्थं शरत् स्वच्छजलं पद्माकरसुगन्धिनां न्यभिसत्वायुनाभां स गो गोपालकोच्युतः कुसुमितवनराजीसूक्ष्मभृङ्गद्विजकुलगुष्ट सरः सरिन्महीध्रं मधुपतिरवगाह्यचारयन्घा सख पशुपालबलश्च कूजवेणुं तत् व्रजस्त्रिय आश्रित्य वेणुगीतं स्मरोदयन् काश्चित् परोक्षं कृष्णस्य स्वगीभ्योऽन्ववर्णयन् तद्वर्णयितुम् आरब्धा स्मरन्त्यकृष्णचेष्टितं नासकं स्मरवेगेन विक्षिप्तमनसो नृप बर्हाबीढं नटवरवपुः कर्णयो कर्णिकारं बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालां वेणो अधरसुतया पूरयन् बृन्दारण्यं स्वभथरमणं प्राविसद्गीतकीर्तिः इति वेणुरवं राजन् सर्वभूतमनोहरं श्रुत्वा व्रचस्त्रियः सर्वा वर्णयन्त्यो बिरेबिरे भीरे कोऽभ्यभूच अशन्वताम्बलमितं न परं विदाम सख्यः पशूननुविवेशयतोर्वयस्य यैः वक्त्रं व्रजे ससुतयो अनु वेणुजुष्टं कटाक्षमोक्षं सूतः मालानुपृथपरिधानविचित्रवेषं मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गेयतानटवरौ क्वच गायमानौ गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदरादरसुधामपि गोपिकानाम् भुङ्क्ते स्वयं यत वसिष्ठरसंहृतिन्यो हृष्यत्वचोश्रुमुचुस्तरवो यथा आर्या बृन्दावनं स हि भुवो वितनोति यद्देवकी सुतपदाम्बुजलब्धलक्ष्मी गोविन्द वेणुम् अनुमत्तमय प्रेक्ष्याद्रिसान्द्वरधान्यसमस्तसत्वं धन्यास्म मोटमतयोऽपि हरिण्ययेताः यानन्दनन्दनम् उपात्त विचित्रवेषम् आकर्ण्यवेणुरणितं सह कृष्णसाराः पूजान्धतोर्विरचिताम् प्रणयावलोकैः कृष्णं निरीक्ष वणितोत्स्वरूपशीलं श्रुत्वा च तक्वणित वेणुविचित्रगीतं पीयूषबुद्धभितकर्णपुटैः पिबन्ध्यः सा वा प्रायोपधाम्बवि गामुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगीतम् आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त्यमीलितदृशो विगतान्यवाचः आवर्तलक्षितमनोभवभग्नवेगाः आलिङ्गनस्थगितमूर्मिभुजैर्मोरारेर्गन्दि पादयुगळं कमलोपहाराः दृष्ट्वा तपे व्रज पशुंसक रामगोपे सञ्चारयन्तमनु वेणमुदीरयन्तम् ेमः प्रवृद्धभुतितः कुसुमावलीभिः स्वबुशाम्भुत आतपत्रम् पूर्णाः पुलिन्द्य बुरु गाय पदाब्जराघ श्रीकुङ्कुमेन हन्ता यं मध्रिरबला हरिदासवर्यो यत् रामकृष्णचरणस्पर्शः मानं तनोति सखगोगणयोस्तयोर्यत् पानीयसूयवशकन्धरकन्धमूलैः का वेणुस्वनैकलपधैस्तनुभृत्सु सख्यः अस्पन्दनं गतिमतां पुलकस्तरूणां निर्योगपासकृतलक्षणयोर्विचित्रम् एवंविता भगवतो यां बृन्दावनचारिणः वर्णयन्त्योमितो गोप्य क्रीडास्तन्मयतां ययोः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धेवेणुगीतं नाम एकविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महराज के जय